श्रीमद्भागवतं महापुराणं चतुर्सस्कन्ध अथ तृतीयोऽध्यायः मैत्रे उवाच सदा विद्वीसतोरेवं कालो वैधिमाणयोः जामातु स्वसुरस्यापि सोमहानतिचक्रमे सु यथाभिषिक्तो दक्षस्तु ब्रह्मणा परमेश्विना प्रजापतीनां सर्वेषाम् आधिपत्ये स्मयोऽभवत् इष्ट्वास वाजपेयेन ब्रह्मिष्ठानभिभूयत बृहस्पतिशवं नाम समारेभे कृतुत्तमम् तस्मिन् ब्रह्मर्षयः सर्वे देवर्षि पितृदेवताः आसन् कृतस्वस्थन्त्यणां तत्पत्न्यश्च सभर्तृका तदुपसृत्य नवसे खेचराणां प्रजल्पतां सती दाक्षायणी देवी पितृर्यज्ञमहोत्सवं व्रजन्ति सर्वतो दिग्भ्य उपदेवपरस्त्रियः विमानयानाप्र सम्प्रेष्ठान् निष्कं कण्ठी सुवासमहम् दृष्ट्वा स्वनिलयाभ्यासये लोलाक्षिर्मिष्टकुण्डलाः पतिं भूतपतिं देव मौ सुख्यादभ्यभासत सत्युवाच प्रजापतेस्ते स्वसुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल वयं च तत्राभिसरामवाम ते यद्यर्थितामी विवृधा व्रजन्तिः तस्मिन् भगिन्योमं भर्तृभि स्वकये धुवं गमिष्यन्ति सुहृद्विदीक्षव अहं च तस्मिन् भवताभिकामये सहोपनीतं परिवर्ह्यमर्हितुं तत्र स्वश्रमेन्ननु भरति संहिता मातृ स्वश्रीं क्लिन्नधियं च दक्षे दक्षेतिरोत्कण्ठमना महर्षिभिः उन्नीयमानं च मृडाध्वरध्वजम् त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकं तथाप्यहं योषिततत्त्वमित्युचते दीनादिदीक्षे भवमेभवक्षितिम् पश्य अप्यलंकृता कांत सखावरूथसह। यासां व्रजद्भिः नमो नभो विमानैः कुलहंसपाण्डुवी कथं सुताया पितृगेहकौतुकं निशम्य देह सुरवर्यने गते अनाहुताय व्यभियन्ति सोषितं तन्मे प्रसीदे तममद्यं वाञ्छितं कर्तुं भवान् कारुणिकोऽवतार्हति त्रयात्मनूर्धेहमदभ्रुं चक्षुषा निरूपितामानुगृहाणि याचितः त्रिशिर्वाच एवं गिरित्र प्रियाभिभाषितप्रद्यभ्यदत्त प्रहसन् त्रिप्रियः संस्मारितो मर्मभिद कुवागिसून् यानाः को विश्वशुजां समक्षतः श्रीभगवानुवाच त्वयोदितं शोभनमेव शोभने अनाहुतायाप्यभियन्ति बन्धुषु ते यद्यनोऽन्तादितं दोषदृष्टयो बलीयशालात्मेन मन्युनाम् विद्या तपो वित्तवपुरुं वयः कुलैः सतां गुणैः षड्भिरसत्तमेतरैः स्मृतौ हतायां धृतमान् दुर्दशब्दान् पश्यन्ति हि धाम भूयसां नैतादृशानां सृजनव्यपेक्षया गृहान् प्रतीयादनवस्थितात्मनां येभ्या गतान् वक्रधियाभिचक्षते आरोपितभ्रूंभिर्मर्षणाक्षिभिः तथारिभिर्न व्यथते सुलीमुखै चेते रिताङ्गो हृदियेन दूयता स्वानां यथा वक्रधियां दुरुक्तिङ्भि दिवानि सन्तप्यति मर्मतारितः व्यक्तं तमुत्कृष्टकृते प्रजापते प्रियात्मजानामसि शुभ्रसम्मताम् अथापि मानं न पितुः प्रपत्यते मदाश्रयात् कपरितप्यते यतः पापच्यमालेन हृदातुरेन्द्रियः समृद्ध मे पुरसबुद्धिसाक्षिणाम् अकल्प एषामधिरोढुमञ्जसा पदं परं द्वेष यथा सुराहरिं प्रत्यूदगमप्सृणाभिवादनं विधीयते साधुमिथ सुमध्य मे प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावितः सत्त्वे च तस्मिन् भगवान् वासुदेवो यथोक्षजो मे नमसा विधीयते तत्ते निरिक्षो न पितापि देहकीं दक्षो मम मद्वीं तदनुव्रतासे यो विश्वसृज्ञं यतं वरोरु माम् अनागसं यदि व्रजेश्यस्यतिहान् यमद्वचो भद्रं भवत्या न ततो भविष्यति दम्भावितस्य स्वजनसजनात्परा भवो यदा स सद्यो मरणाय कल्पते इति श्रीमद्भागुते महापुराणे पुरं चां चयितायां चतुर्थस्कन्धे कुमारुद्रसंवादे तृतीयोऽध्यायः